ओ मम दवला व कुण्डम नदिय जो मई नै स्तुति ची बावा निहक फिलुकनी मन्दस्मितश्रीमुखीत्या सङ्कीर्तनानन्द्रामिश्वर ओ माता देवच्ये नाहं गणपति हवामयी कुन्तवर्ते राजम् ब्रह्मणाम् ब्रह्मणम् बत आण श्रृण्मोति सीदसाधना महागणपतये नमः इन्ट्रेस्ट् आफ़् टैट् डू वन् लेट् डू सेन् एक Yeah, 7, 8, 9 and 10, uh, once and then the 10 we will uh, recruit twice, okay? Then we will recruit twice. Okay? So, we start with the 7 which is the government system here, okay? We will uh, do okay. that together and then 10 we will recruit uh, twice and then we will do individual twice, okay? Okay? Everybody ready? Okay. वन् टु त्रीं अगं शुश्च मेधिपतिश्च उपादिंशुश्च मे कर्यान्द्रवादिश्च मे मैत्रारुणश्च मश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्धी च मरयणश्च मे वैष्णदेवश्च मे ध्रुवश्च मे ्रहातिग्राह्यश्च ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीराश्च मे माहेन्द्रश्च आदित्यश्च मे साभिश्च मे सारस्त्वश्च मे कौष्णश्च मे पात्नीतश्च मे ु जनश्च मेहश्च मे बर्भिश्च मे वेदिश्च मे रिक्ष्म्याश्च मे कुचश्च मे चमसाश्च मे च मे भायज्ञामि च मेभृक्षमाधवनीयश्च आग्नी च मे वृद्धानञ्च मे अङ्गाच्च मे सहच्च मे अग्निश्च मे धर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मेश्व मेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे दौश्च मेपरीलयोषश्च मे यज्ञेन सोमश्च मे विषुश्चे ीक्षा च मे तपश्च मरुतुश्च मे प्रपञ्च मे होरात्रयोर् वृष्ट्या बृहद्रे यज्ञेन कल्पेताम् गर्भाच्च मे पत्साच्च मे प्रविश्च मे प्रवीच मे नित्यवाच्य मे ौ च मे पञ्चाविश्च मे पञ्चावीच मे त्रिवत्सश्च मे त्रिवत्सा च मेवा च मे तुर्यौ मे पष्ठवाच मे पष्ठौ चमक्षाचि मे पशाचम वृषभश्च मे निरेहच्च मे नृक्ष्वानि मे प्राणो यज्ञेन अपानो यज्ञेन यानो यज्ञेन कल्पतां यज्ञेन कल्पतां यज्ञेन कल्पतां मनो यज्ञेन कल्पतिना तां यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पतां त्री र्भा गर्भाच मे विवाच्च मे वस्त्रविष्टमे त्रविच्च मे विद्यवाच मे विद्योहीत मे पञ्चावि मे पञ्चावीत मे हि च उक्षा ृषभक्ष मे रेहच्च मे मत्माहच्च मे धेनुश्चमपायुतज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पलागस्तोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग् आत्मा 10th श्च मे वत्साश्च मे प्रविश्च मे त्रवीच मे दिव्यवाचमे द्वितीयौ हि च मे पञ्चविश्च मे पञ्च बीजमे त्रिवत्सश्च मे त्रिवत्सा च मे तु हि च मे पष्टवाश्च मे हि च मे वक्षा च मे लेहश्च मे तद्वांश्च मे धेनश्च म आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां ज्ञानो यज्ञेन कल्पतां चक्षु यज्ञेन कल्पता गं सोगं यच्छ यज्ञेन कल्पताम् Manu ithne nakalpadaam, waak ithne nakalpadaam, aalpa ithne nakalpadaam, ithnyo ithne nakalpadaam. Very good. I don't know what you did. did you practiced a lot? Yes. <laughs> okay. Yeah, I can tell. Okay, the only thing is that you said the instead of a pastohi chama uksha chame, you said pastohi chame uksha chame, okay? Okay. Okay. गर्बाश्च मेत्र okay. त्रिबीच मे दित्यवाच्य पञ्चाविचमे पञ्चावीचमे हि च मे पञ्चाबिच्च मे पञ्चावीच मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गु श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् गर्भाश्च मे गर्भाश्चे गर्भाश्च मे वत्साश्च मे त्रविश्च मे त्रवीच मे दिव्यवाच मे दिव्यौ हि पष्टवाश्च मे पष्टौ हीचम उक्षाच मे वशाचमऋषभश्च मे ऋहश्च मे जक्वाञ्चमेश्चम आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुम् श्रो चक्षुर्यज्ञेन कल्पतागश्रोत्रम् चक्षुर्यज्ञेन कल्पतागु श्रोता चक्षुर्यज्ञेन कल्पता श्रोत्रम् यज्ञेन यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् कल्पतां यज्ञो यज्ञेन ी च मे द्वितीयवाच मे द्वितीय च मेचाविष्टमे पञ्चविचमे पञ्चविच मे त्रिभताश्चमे त्रिभश्च मे त्रिभश्च मे त्रिभमे वाचमे त्रिव्यो हि च मे अष्टवाच मे पष्टौ हि सम वक्षाचमे मे लद्वां च मे देनुश्च कल्पतां प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् यज्ञेन कल्पतां यज्ञेन कल्पतां श्रोतुं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वा यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां यज्ञेन कल्पतां गर्बाश्चमे so, <laughs> <laughs> <laughs> <Okay. laughs> दित्यवाच्य मे द्वित्यौ सी च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौ सि च मे पष्टवाच्य मे पष्टौ सि देहश्च मे नभ्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् कल्पताम् आत्मा यज्ञेन कल्पताम् गर्भामे वल्सात्रिविश्वमे त्रवीच मे ीश्च मे पञ्चाविच मे त्रिवल्सश्च मे त्रिवल्सा च मे सूर्यवाच मे तुर्यौ हि पष्टवाच मे पष्टौ हीचम उक्षा च मे वशा च मृषभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च मयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पताग् कल्पतां मनो यज्ञेन कल्पतां वाग् यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् इद श्रो युट् इस्त्रं गर्भाश्च मे वत्साश्च मे त्रविश्च मे त्रवीच्य मे दित्यवाच्य मे द्वित्यौ हि चमे पञ्चाविश्च मे पञ्चावीचमे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौही चमे पष्ठवाच्च मे पष्ठौही चम उक्षा च मे वशाचम वृषभश्च मे वेहच्चमे नड्वाञ्चमे धेनुश्चम आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पता मपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुः श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वागज्ञेन कल्पता मपात्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन रि गर्भाश्च मे वत्साश्च मे त्रविश्च मे त्रवीच मे दित्यवाच्च मे दित्यौ हि च मे पञ्चाविश्च मे पञ्चावीच मे त्रिवत्सश्च मे त्रिवत्सा च मे च मे पष्ठौही चम उक्षाच मे वशाचमऋषभश्च मे वेहच्च मे नड्वाञ्च मे धेनुश्चम प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताकश्रोत्रम् यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग् यज्ञेन कल्पताम् वाग कल्पताम, आत्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पतां ओके लण्टमे तिस्रष्टमे तिस्रष्टमे तिस्रष्टमे तिस्रष्टमे पञ्च च मे सप्तच मे श्चमे पञ्च च मे सप्तचमे नव च एकादश च मे एकादश च मे त्रयोदश एकादश च मे त्रयोदश च मे नव चम एकादश च मे त्रयोदश एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नव चकादश च सप्तदश च मे नवदश चम एकविघुंशतिश्च मे एकादश च मे त्रयोदश एकादश च मह त्रयोदश चमे पञ्चदश चमे सप्तदश च मे नवदश चम एक विघुंशतिश्च मे नवदश चम नवदश चम एक विगुं सतिष्टमे त्रयो विगं छतिष्ठमे नवदश चम एक विगं षतिष्ठमे त्रयो विगुंशतिष्टमेकविगुं षतिष्ठमे त्रयो विगुं सतिष्टमे पञ्चविगुं षतिष्टमे तिश्च त्रयोंशतिष्ठमे पञ्चविगुंशतिष्ठमेकविगुंशतिष्ठमे त्रयोविंशतिष्टमे पञ्चविगुंशतिश्च मे पञ्चविघुंशतिष्ठमे भक्तविघुंशतिष्ठ मे नव विगुंशतिष्ठमे तिश्च विगुंशतिश्च मे नव विगुंशतिश्च मे पञ्चविभुंशतिश्च मे सप्त विगुंशतिश्च मे नव विगुंशतिश्च एकत्रिंशमे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च एकत्रिकुंषच्छमे नव विभुंशतिश्च एकत्रिगुंशच्चमे त्रयस्तृगुंशच्चमे एकतृगुं शच्य मे त्रयस्तृगुं शच्य मे चतस्रश्च मे एकत्रिगुचयस्त्रिगु शे चतस्पृच्छयस्त्रिगु ष्य मे चतस्पृच्छयस्त्रिगु शच्य मे चतस्रश्चमे शौचमे एकत्रि त्रयस्त्रिं चिगिनि एकाच मे ऋस्रश्च मे पञ्च च मे सप्तच मे नव चम एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश चम एकविघुंशदिश्च मे त्रयोविभुंशदिश्च मे पञ्चविघुंशदिश्च मे सप्तविघुंशदिश्च मे नवविगुंशदिश्चम एकतृगुंशच्च मे त्रयस्तृगुंशच्च मे चतस्रश्चमेषौ च मे एका एकाच मे त्रिश्च मे पञ्च च मे सप्तचमे नव चम एकादश चमे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश चम एकविगुंशतिश्च मे एकत्रिं ष्ये अभ्यत्रिं एकाच मे त्रिपश्च मे पञ्च च मे सप्तच मे नव चम एकादश च मे त्रयोदश च मे पञ्चदश च मे invinci right? JUST A <laughs> Л江τά oh, no. <I> <laughs> <laughs> Okay, go ahead. एकाचमे तिस्रष्टमे पञ्चचमे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्चमे नवविगुंशतिश्च एकत्रिगुं षट्मे त्रयस्त्रिगुं षट्मे च मेष्टौ च मेरि एकाच मे तिस्रश्चमे पञ्च छमे सप्तशमे नव षम एकादश च मे त्रयोदश च मे पञ्चदश सप्तदशमे पञ्चविघुं चतुश्च मे सप्तविघं षतिश्चमे नव विगुं चतुश्चमे षटमेक एकत्रिकं क्षमे त्रयस्त्रि त्रयस्त्रिकं षट्मे च एका चमे पञ्चचमे सप्तचमे नव चमे नव चमे नवचम एकादश चमे त्रयोदश चमे पञ्चदश चमे सप्तदश चमे नवदश चम एकवि एकविगुं सतिश्च मे त्रयोविगुं सतिश्च मे पञ्चविगुं सतिश्च मे सप्तविगुं सतिश्चमे नव विगुं सतिश्च मे एक नवविगुंसतिश्च एकत्रिगुं सच्चमे त्रयस्त्रिगुं सच्चमे चतस्रश्चमेौचमे एवैल्डन बिल्डन ओनली थिंग इज यव सेइंग एक विगुम सतिश्चा इन एक विगुम शतिशा लाइक एक शतिशा ओके या या जस्ट डोंट से स से शा ओके एक विगुम शतिश्चमे चा ओके जगा एकातमे तिस्रश्चमे पंचचमे सप्तचमे नवचम एकादश चभे त्रयोदश च वे पञ्चदश चवे सप्तदश चभे नवदश चब एकविघुंशतिश्चभे त्रयोविगुंशतिश्चभे पञ्चविघुंशतिश्चमे सप्तविघुंशतिश्चभे नवविघुंशतिश्चब एकत्रिभुंशश्चभे त्रयस्त्रिगुंशश्चभे एकादमे त्रिषष्टमे पञ्चचमे सप्तचमे नवशमेकादशमे त्रयोदश चमे पञ्चदश चमे सप्तदश चमे नवदशमे दशचम एकविगुं गदिष्टमे त्रयोविगुं गदिष्टमे पञ्चविघुं गदिष्टमे सप्तविगुं गदिष्टमे नवविगुं गजिष्टम एक त्रिगुं षट्मे त्रयुं षष्टमे Me, chame, we didn't do that okay yeah it is all Panja Vigum Shatish Bucket Panja Vigum Shatish Bucket okay just, okay. okay okay okay but who wants to try next I can try okay P synchronous continence सप्तचमे नव चम एकादश चमे त्रयोदश चमे पञ्चदश चमे सप्तदश चमे नवदश चम एकत्रिकुं षतिश्च मे त्रयोविगुं षतिश्च मे पञ्चविघुं षतिश्च मे सप्तविगुं सतिश्च मे नवविघुं सतिश्च एकत्रिगुं षष्ठिमे त्रयत्रिगुं षष्टिमे चतस्रश्च मे शौचमे चतस्रश्च मे अष्टौ च मे बडिलिन्दसन्धिकं चतस्रश्च मेष्टौ मे ओके कम् शौच्रश्च मेष्टौ चतस्रश्च मेषौचष्टौ च मे चतस्रश्च मेष्टौ च मे एकाचमे तिस्रश्चमे पञ्च चमे सप्तचमे नव चम एकादश चमे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश चम एकविगुंशतिश्च मे एकाचमे तिस्रश्चमे पञ्च चमे सप्तचमे नव चम एकादश चमे त्रयोदश चमे पञ्चदश चमे सप्तदश चमे पञ्चविगुं शतिश्चमे सप्तविगुणं शतिश्चमे नव विगुं शतिश्च एकत्रिगुं षट्मे त्रयस्त्रिगुणमे चतस्रष्टमे षोडश च मे षोडश द्वादश च मेडश च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे द्वादश चमे षोडश चमे विगुंशतिश्च मे द्वादश च मे षोडश च मे विगंशतिश्च मे द्वादशचमे षोडशच मे विभुंशतिश्च द्वादश च महे षोडश च मे विभुंशतिश्च मे चतुर्विगुंशतिश्च मे चतुर्विंशतिश्च मेष्टा विगुंशतिश्च मे चतुर्विंशतिश्च चतुर्विभुंशदिश्च मेष्टा विभुंशतिश्च मे द्वा त्रिभुंचतुर्चुर्विपुंशक्तांशति द्वांशर् चतुर्विपुंशतिश्च मेंशतिष्ठमे चतुर्भिपुंशतिश्चमेष्टाभिंशतिश्चमे द्वातृगुंशच्यमे षटत्रिंशच्यमे चतुर्भिपुंशतिष्टमे मे षट्मे ुंशच्यमे षटुंशच्ये चत्वारि पंशच्चमे चतुश्चत्वारि पंशच्यमे vatrigum shaktramee vatrigum shaktramee vatrigum shaktramee vatrigum shaktramee vatrigum shaktramee vatrigum shaktramee vatrigum shaktramee Looks like some people are still trying to figure out what the words are. Hari, in this Malayanan script, it says, oh. instead of Vigum, it, everything it says Vigum. So it should be Vigum, right? Vigum. Vigum. Okay, so that is, okay. we don't say Vigum. It says Vigum. Vigum okay. and Vigum. Okay, I think it's a spelling mistake. Everything it says GUM here. Okay. GUM is correct, but it should not be just GUM. It should be GUM. G, g and M. So like, K and M, um, Kum. It's going to say Kum. Ka plus A is Ka. Ga plus A is okay. Ga. Okay. G, sorry, Ga plus A is Ga. It's a Ga plus M, um, gum. Okay. gum. Okay, Gum. This is Ga plus M, um, Gum is correct. Like Ganga or something, okay. Gum plus Gah. Okay. okay. So this is Ga plus M um is Gum. Okay, not the Gum. That's okay. all it is. Gum. Okay. Okay. i don't think they can write it with uh, that ghum uh, because the uh, g is not there red right? g plus ga is there but uh, g okay. right they have to <laughs> that probably the reason yeah there is a g there is a letter g but i think it's a new lipi right. right. no, that twice is very hard to read correct but it is actually g g not the ga okay okay k uh, plus a ka g plus, okay. plus a ga g plus a ga g plus e gi G plus E G, right, so but how do you say G, how do you say G, okay, that is a problem. In Sanskrit there is a halanda, you put a one line at the bottom, okay, just look at the G. Okay. If it's not there, you look at the G. Okay, let's try some Dvātragum. Dvātragum shacchame, shatragum shacchame, chathwal ghum shacchame, चतुश्चत्वारि द्वात्रिं षट्रिष्टमे द्वा त्रिं षट् तिष्ठमे चत्वारि चतुश्चतुश्चा चत्वारि ुं च मे चु षट्मे सोरि गु षष्टमे चतुश्चत्वारि गुंशच्चमेष्टा चत्वारि गुंशच्चमे वाजश्च प्रसवश्च चतुश्चत्वारि गुंशद्मेष्टाश्चतुश्चत्वारि गुंशद् चतुश्चत्वारि गुंशच्चमेष्टाचत्वारिमे वाजश्च प्रसवश्चापिजश्चक्रतुश्चत्वारिगुं षड् जश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च Васть та джарсика кратусть Васть урджа ча сувасть мурда ча кратусть крас я сам хари Пратусть ча вастья мурда ча вешний андьяянаш ча gratos jasu vas namurtha cha cha janyes cha andanyanya cha ida dat dat what is that prasavachya ati jastrakadushya svastamavasamurtha cha ्यूर्धा चिश्चय no, Vishniyashchantyayana. Vishniyashchantyayana. I, I, I will fit it into two, okay? Let's do this one more time. मूर्धा च व्यश्नियश्चाध्यायनश्च व्यस्नियश्चाध्यायनश्चान्द्यश्च yashniyasyaanyayanaschast yashniyasyaanyayanaschast yashniyasyaanyayanaschast yashniyasyaanyayanaschast यस्य शान्त्यायश्च व्यस्नीयं ज्ञानस्यान्त्यस्य भववनाशश्च यस्नियस्य शान्त्यायनास्यान्त्यस्य भववनाशश्च शान्त्यायनस्य धिपतिश्च था था व्यश्चाय vashniyas sniyasthaan yaa na stha bonasya bhuvanas aaditad gihuku okay let us try there is a second part into two parts okay i'll do the first part and then try the second part i think some people are having a lot of difficulty in the second part okay okay so we'll uh, try split into two and then try dwa dashachame shodashachame विघुंशदिश्च मे चदुर्विगुंशदिश्चमेष्टा विगुंशदिश्च मे त्वातृगुंशच्य मे षट्रिगुंशच्य मे षोडशचमे द्विंशतिश्च मे चतुर्विंशतिश्चमेष्टाविंशतिश्च मे द्वात्रिविंशच्चमे षत्रिविंशच्चमे चत्वारिगुंशचमे े षोडशतिश्च महे चतुर्विगुंशतिश्च महे षट् षट् षट्वांशतिश्च महे द्वात्रिघुं षच्छं महे षट्रिघुं षट् मे चत्वारिगुं षट्च चतुश्चत्वारिपुंशच्यमेष्टा चत्वारि गुंशच्चमे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्नियश्चान्द्यायनश्चान्द्यश्च भौवनश्च भुवनश्चाधिपतिश्चतश्चतुश्चत्वारिगुंशच्चमेष्टा च च्छमे वाजश्च प्रसवश्च क्रतुश्च सुवश्च व्यश्नियश्चान्त्यानश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च चतुश्चत्वारि गंशच्च मेष्टाचत्वारिच्च मेश्च प्रसवस्यापिजश्च मूर्धा चान् So let us, all of us together we will do the, the, the, this paragraph, Ekha Chameh till the end, okay, once we will try, if it comes out, it comes out, then we will continue from next class, okay, let's give it a shot, we will do it only once together, okay, ready, ready, let's begin, Ekha Chameh, okay, one, two, three. च मे त्रिश्च मे पञ्चचमे सप्तच मे नव चम एकादश च मे त्रयोदश च मे पञ्चदश चमे ंशतिश्च म एकत्रिगुं षच्चमे पयस्त्रिगुं षट् च मे चतुश्चमेष्टौ च मे द्वादशच मे षोडशच मे विगुंवशश्च मे चतुर्विगुंशतिश्चमेष्टा विगुंशतिश्च ष्टा चत्वारिगं षच्छमे प्रसायश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्चाधिपतिश्च maybe only the last part is a little difficult but i think otherwise you should be okay so let's keep practicing and then we'll continue the next week and if people have difficulty we'll do it again next week okay any questions no so you are almost at the end of chamakam 2 so we'll see what we do after that maybe practice continue couple of classes and then we'll go something up ओके लस् दूर् इति लोकाः समस्ताः ॐ लोका tam sat tam asi om shri gurave namo namo namo namo namo